एका च समे मे तिस्रः तिस्रश्च समे मे पञ्च पञ्च च समे मे सप्त सप्त च समे मे नव नव च समे वा एकादश एकादश च समे मे त्रयोदश त्रयोदश च त्रयोदशेति त्रयः दश त्वमे मे पञ्चदश पञ्चदश च पञ्चदशेति पञ्च दश त्वमे मे सप्तदश सप्तदश च सप्त दशेति दश चमे मे नवदश च नव दशे ति नव दश चमे न एकविगुंसतिः एकविगुंसतिश्च एकविगुंसधिरित्येक विगुंसतिः समे हे त्रयो विपुंसति त्रयो विपुंसतिश्च त्रयो विगुंसतिरिति त्रयः विपुंसतिः चमे मे पञ्च विगुंसतिः पञ्चविगुंसतिश्च पञ्च विगुंसतिरिति पञ्च विपुंसतिः समे मे सप्त विगुंसतिः सप्त विगुंसतिश्च सप्त विगुंसतिरिति सप्त विगुंसतिः चमे मे नव विगुंसतिः नव विगुंसतिश्च नव विगुंसतिरिति नव विपुंसति हि चमे म एकत्रिपुंसत् एकत्रिगुंसच्च एकत्रिगुंसदित्येक त्रिगुंसत् चमे त्रयस्त्रिगुंसत् त्रयस्त्रिगुंसच्च त्रयस्त्रिगुंसदिति त्रयः त्रिगुंसत् समे मे चतस्रः चतस्रश्च समे मेष्टौ अष्टौ च चा, समे मे द्वादश द्वादश च चा, मे षोडश षोडश चमे चा, मे विगंसतिः विवंसतिश्च चा, समे मे चतुर्विपुंसतिः चतुर्विपुंसतिश्च चतुर्विगुंसतिरिति चतुः विगुंसतिः चमे मेष्टा विपुंसतिः अष्टा विगुंसतिश्च अष्टा विगुंसतिरित्यष्टा विपुंसतिः च मे मे द्वात्रिगुंसच्च समे मे षटत्रिगुंसत षटत्रिगुंसच्च षत्रिगुंसदिति षट् त्रिगुंसत् समे मे चत्वारिगुंसत चत्वारिगुंसच्च समे मे चतुश्चत्वारिगुंसत चतश्चत्वारिगुंसच्च शतश्चत्वारिगंसदिति चतुः चत्वारिगंसत् चमे मेष्टाचत्वारिकंसत् अष्टाचत्वारिगुंसच्च अष्टाचत्वारिगंसदित्यष्टा चत्वारिगंसत् प्रसवश्च प्रसव इति प्रसवः चापिजः अपिजश्च अपिज इत्यपि यः च क्रतः क्रतश्च प्रसवः सुवश्च चमूर्धा मूर्ध्वा मुर्भा, च व्यश्नियः व्यश्नियश्च व्यश्निय इति वि अश्नियः सान्त्ययनः आन्त्यायनश्च चान्त्यः अन्त्यश्च च भुवनः भुवनश्च स भुवनः भुवनश्च साधिपतिः अधिपतेश्च अधिपतिरेत्यधिपतिः ति च एका च मे